गणेशपुराणं क्रीडाखण्डम् अध्यायं ट्वेण्टि फोर् व्यलोकयं स्थं नगरे तस्मिन् सर्वे महाजनाः विधाय पूजासामग्रीं भोजनस्याप्यने कथा गृहे गृहे राजगृहे सर्वामात्यगृहेऽपि च गवेषयन्ति स्म जनास्तदा कश्यपनन्दनं अपृच्छन्त जनाः सर्वे क्वचिद्दृष्टो विनायकः ने दिनेधिश्रुतिर्वक्रियंस कस्याक्षिगोचरः दोस्माभिरिदि तत्र वद्जनाः पुरप्रान्ते तुये तत्र ते शृण्वज्जनवाक्यदः स चागदशुक्लगृहं तदस्ते तद्गृहं ययुः नापश्यंस्त मधा पृच्छंस्ते नोक्तं स इदो गतः स विसृज्य बाकाश्च्वागत सुप्तवा कचित्त दृशुसुपर्यक्षवरा के क्रोध वशगा निनंदुर्बाको लघु पिशाच इव कि दरिद्र से गृहम प्रधि ईश्चे सर्वभावं प्रियमाचरेद उद्घाप्यतं करेद्धृत्वा याहीदि शरणं शुभं सभलं कुरु न सर्वं त्वदर्थमुपकल्पितं गद खेदो भ्रमणजो दृष्ट्वा त्वच्चरणाम्बुजम् याहि याहि गृहान्नस्त्वम् भोक्तुम् बालकणैः सह सवोचे साम्प्रतम् भुक्तम् पुनरुचो जनास्तुतम् दरिद्रस्य गृहे किं भुक्तं भुक्तम् स्याद्भैक्ष्यवर्धितः नापोऽपि पिबदे क्वान्नं कथं भुक्तं त्वया विभो गणेश उवाच उदरं परिपूर्णं मे यातुं शक्तिश्चनास्ति मे क उवाच तदस्सर्वे विदित्वादं भुक्तं शुक्लगृहे जनाः निराशाग्नसङ्कल्पा रुष्टादीनां विचेतसः संभारा व्यर्थता याद नकेशाथस बुभुजुस्ता स्वयं दुष्टा दाभि का भक्तिवर्जिता ये भक्ता भ्यानपरायणाव लोकेशुवा ध्यानस्ति तेषु सः एको नानाश्वरूपो भूत् इवस्पुडं इव स्फुटं जलपूर्णेषु कुम्भेषु रविर्नाना यथेक्ष्यते क्वचित् पर्यङ्कशजनः क्वचित् जपपरायणः क्वचिद् दानरथक्त्वापि भोजनाय समुत्सुकः क्वचित् पाठ्यते शिष्यान् साङ्गवेदं सहार्थकं क्वचित् व्याकुरुते शास्त्रं क्वचिच्च पठति स्वयम् एवं नानास्वरूपैः स नानागृहगतो बभौ अयमस्मत्पृहं यादः पूर्वमित्यभिमेनिरे तैरमुध्वर्तनं स्नानं पूजनं भोजनं ददुः एवं सर्वे जह्रशिरे काशिराजसमन्वितम् दृष्ट्वादेवं परमया मुदा साधुविनायकं पुपूजुर्भोजयामासुर्द्विजान् सुहृद्गणानपि पञ्चामृतं च पक्वान्नं व्यञ्जनम् पायसौ धनौ अन्यदृजिगरं सर्वं बुभुजुस्ते यथा रुचि एवं द्विजेषु देवेषु काशिराजे सुहृत्स्वपि आशीर्वत्सु सभाविष्टः काशिराजोऽन्वपृच्छद मायया मुनिपुत्रस्य मोहितो नेकथा कृतेः राजोवाच विनायको गद भोक्म नागृह स्फुट अयेक्यस्ति भुंक् गृह गृह क्वचिच शिपिकारूढ़ो यादिभं विनायक गजारू क्विद्यादि हयारूढ़ कुचिद लोकेशु पूजाव्यग्रेषु बालके ततस्तौ नगरीं यादौ तत्र तत्र विनायकम् अपश्यतां भुक्तवन्दं परावृत्य समीयदुः यत्र यत्र गृहे यत्तौ तत्र तत्र विनायकं, विनायकं। निर्वृत्य सकलं नित्यं भिक्षार्थं पर्यगच्छताम् शयानं शयने दिव्ये भक्षयन्दं फलानि चर्वयन्तं च ताम्बूलं क्वचिद् गन्धादिचर्चितं क्वचिन्नृत्यं प्रपश्यन्दं गणिकानां गणान्वितद क्रीडन्तमक्षैः कुत्रापि क्वचित् बुद्धिबलेन च नानालङ्कारसंयुक्तं दिव्यवस्त्रान्विधं क्वचिद पठन्तं च जपन्तं च ध्यानेन तमपश्यतां स्तूयमानं क्वचिद्भक्तै स्तुवन्तं जगदीश्वरं दर्शयन्तं विभूतिं स्वां भक्त्यानेकष क्वचिद् युवानं रमयन्तं स्वा स्त्रियोऽोऽत्यन्तमनोरमाः चिकित्सयन्तम् वृद्धम् च सेवन्तम् रसमुत्तमम् हृङ्गन्तम् भक्षयन्तम् च मृदम् कुत्रचिदङ्गणे परिश्रान्तम् पिबन्तं कम् क्रीडाभिकन्दुकादिभिः एवम् तौ क्षुधितौ श्रान्तौ पर्यडन्तौ गृहे गृहे सर्वत्र दृष्ट्वा तं देवं परस्परमधोचतुः अत्रास्ति निर्मलशुक्लो ब्राह्मणो नगरे शुचिः यावो भोक्तुं तस्य गृहे इत्युक्त्वा तत्र जग्मधुः तत्रापि सोऽणगदो दृष्टस्ताभ्यां विनायकः न गरेनात्र भोक्तव्यं न दु शेषं इत्युक्त्वा बहिरायादौ पुरो दृष्ट्वा विनायकं तिर्यगदिधरौ भूत्वा ततोऽपि समपश्यतां प्राच्यां प्रतीचां च दिशि तमे वेदौ समन्वतः अधश्चोर्ध्वं सर्वगदं विनायकमपश्यदां विनायकस्वरूपं च तौ पुनर्विश्वरूपिणं सर्वं विनायकमयं वस्तु मात्रमपश्यदाम् शम्भुं विष्णुं तौ भृशविस्मितौ अपश्यतां हृदि तदा तं च तं विनायकं निमिल्यनयने नयने चान्दस्तमेव मुनिसत्तमौ उत्खाडय नयने चाभिवान्द येनमपश्यतां किरीडिनं कुण्डलिनं मुक्तं मालाम्बराङ्गदं कडिसूत्रेण हैमेन भूषितं सिंहायूढं दशभुजम् सिद्धिबुद्धियुधं शुभं बालचन्द्रं मृगं मदतिलकं नागभूषणं सूर्यकोटिप्रभं सृष्टिस्थिति संहारकारिणं त्यक्त्वा भेदं तत्त्वविधौ भुजं नुतस्म परया भक्त्या देवदेवं विनायकं तस्यैव करुणाप्राप्तप्रबोधौ तौ मुनीश्वरौ यदि श्रीगणेशपुराणे क्रीडाखण्डे विनायकभोजनकथनं नाम चतुर्विंशतितमोऽध्यायः ओ